श्रीमद्भागवतमहापुराणं दसंस्कन्ध अथ पञ्चविंशोऽध्यायः गोवर्धन्धारन् श्रीशुकुवाच इन्दस्तदात्मनपूजां व्यज्ञाय विहितां नृप गोपेभ्य कृष्णनाथेभ्यो नन्दादिभ्यश्चुकोपश गणं सां वर्तकं नाम मेघानां चान्तकारिणाम् इन्द्र प्राचोदयत्क्रुद्धो वाक्यं चाहे समान्युत अहो श्रीमद्महात्म्यं गोपानां काननौकसां कृष्णं मर्चमुपाशित्या ये चक्रुदेव यथा दृढै कर्ममयै कृतुभिर्नाम नो निभ्य विद्यामान् वीक्षुकिं हित्वा भवानवम् लं बालिशं सब्धम् अज्ञं पण्डितमानिनं कृष्णं मर्च मर्त्यमुपाश्रित्य गोपामे चक्रुरप्रियम् एषां शिवावलिप्तानां कृष्णेनाध्यायितात्मनां ध्वुनो च श्रीमस्तम्भं पशून नेतसंशयम् अहं चैरावतं नागम् आरुह्या नो मरुद्गणैर्महावीर्यैर्नन्दगोष्ठञ् जिघांसयां श्रीशुकुवाच इत्थं भगवता ज्ञाता मेघा निर्मुक्तबन्धनाः नन्दगोकुलमासारैः पीडयामासु रोजसां विद्योतमाना विद्युद्भिस्तनन्तस्तनेभिः तीव्रैर्मरुद्गणैर्नुन्नाम ब्रसुर्जलशर्कराः स्थुला वर्षधारा स्थूला स्थूलावर्षधारा मुजन् शभ्रेष्वभिक्ष्णस जलौघै प्राव्यमाना भुर्णादृश्यसन्नतोन्नतम् अत्या सारातिवातेन जात जातवेपनाः गोपा गोप्यस्य सीतार्तं गोविन्दं शरणं जयुः शिरसुताशिकायेन प्रख्याद्यासारपीडिताः लेपमाना भगवत् पादमूलमुपाययुः कृष्ण कृष्णमहाभाग त्वन्नाथम् गोकुलम् प्रभो प्रातुमर्हसि देवान्न कुपिताद्भक्तवत्सर शीलावर्षनिपातेन हन्यमानम् अचेतनम् निरीक्ष्य भगवान् मेने कुपितेन्द्र प्रयागे विहितेऽस्माभि इन्द्रो नाशाय वर्षते तत्र प्रतिविधिं सम्यग् आत्मयोगेन साधये लोकेशम् आनीनां मौढ्यां धरिष्ये श्रीमदं तमः न हि सद्भावयुक्तानां सुराणाम् ईश विस्मयः मत्तोसतां मानभङ्गप्रसमायोपकल्पते तस्मान्मच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् गोपाये स्वात्मयोगेन सोऽयं मे व्रत आहितः इत्युक्लैकेन हस्तेन कृत्वा गोवर्धनाचलम् दधारलीलया कृष्णक्षत्राकमिबालकः अथाह <laughs> भगवान् गोपान् हेम्बतातव्रजौकथ यथोपजोसं विशतगिरिगर्तं स गोधनाः नत्राश इहव कार्यो मध्यस्ताद्रीनिपातले वातवर्षभयेनालम् तत्राणं विहितं हिव तथा निर्विविचुर्गर्तं कृष्णाश्वासितमानसाः यथावकाशं सधनाः स व्रजासोपजीविनः क्षत्रिं व्यथां सुखो सुखापेक्षां हित्वा तैर्व्रजवासिभि वीक्ष्यमाणो दधावज्रिं सप्ताहुं नाचलत्पदात् कृष्णयोगानुभावं तं निशाम्येन्द्रोति विस्मितः निस्तम्भो भ्रष्टसंकल्प स्वानमेघा न संनिवारयत् क्षं व्यभ्रमुदितारित्यं च दारुणम् निशाम्योपरतं गोपान् गोवर्धन्धरो ब्रवीत् निर्यातत्रासं गोपासं श्रीधनार्भकाः उपार्तं वातवर्तं विदग् प्रायाशुनिं नगाः ततस्ते निर्ययुर्गोपाश्वं समादाय गोधनं सकटोढोपकाकरणं श्रीबालस्थविराशनैः भगवानपि तं शैलं स्वस्थाने पूर्ववत्प्रभु तस्य तां सर्वभूतानां सापयामासुलीलयां तं प्रेमवेगान्वृता व्रजौ कशो यथा समीयो परिरम्भणादिभिः गोप्यस्य सस्तेहमपूजयन्मुदादध्यक्षताद्भिर्युजोषदाशिष यशोदारो हली नन्दो रामस्य बलिनां वरः कृष्णमालिङ्ग्य युजोराशिष स्नेहकातराः दिवि देवगुणासाध्यासिद्धगन्धर्वचारणाः तुष्टुर्मुचुमुचुर्तुष्टा पुष्पवर्षानि पार्थिव शङ्खतुन्दुभयो ने दुर्दिवि देव प्रणोदिताः जगुर्गन्धर्वपतयस्तुम्बुरुप्रमुखानि प ततो निरक्तैः पशुपैः परिश्रितो राजं स गोष्ठं सबलो ब्रजद्धरी तथाविधानन्यस्य कृतानि गायन्ते युर्मुदिता हृदि स्पृश इति श्रीमद्भागुते महापुराणे पारंशां चैतायां दशमस्कन्धे ता पूर्वार्दे पञ्चविंशोऽध्यायः